मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेण्टि ऐट् अश्विनकृष्णचतुर्थी माहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच माहात्म्यं यद्वद् ब्रह्मन्नाश्विने कृष्णके महद चतुर्धिजं विशेषेण न तृप्तोऽहं वसिष्ठ उवाच इतिहासंप्रवक्ष्यामि सर्वसिद्धिप्रदायकम् अत्र तेन महाराज शृणु तृप्तो भविष्यसि पार्वतीशङ्कराभ्यां च तपःसाराधितो भवत दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः कार्तिके यस्तदा जातस्वीर्या स्नेहकारकः न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूद कार्तिके नित्यमादराद विवाहोमे पुरा पश्चात् तवापि भविष्यदी। भविष्यदि स्पर्धय दोर्वीक्ष्य पुत्रयो पार्वती शिवौ विचारं चक्रतुस्तत्र विवाहार्थं महामदे अयं विघ्नेश्वरः साक्षात् ब्रह्मरूपो न संशयः क्षोऽपितश्चेत् पदभ्रष्टं करिष्यति विशेषतः साक्षात् पुत्रं समुत्पन्नं स्कन्दं तं त्यज्य विघ्नपं ज्येष्ठं विवाह ये चेद्वा सेनानी कोऽपि तो भवेत् त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव अद कपटरूण कर्तव्यं कार्यमुत्तमं क्यों तत शिव गणेश स्तंद च्रवीद्वजरादिण्वाद सुसम पूर्व विवाहकमी hmm. न संशय ततस्तं गणनाधस्तु जगादवचनं हितं ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर वेदहीनं तथा मे भवदाज्ञां करोम्यहम् स्थूलदेहधरोऽहं मे वाहनं मूषतो पृथ्वी प्रदक्षिणां कर्तुं नशक्नोमि शक्नोमि सदाशिव एवमुक्त्वा गणाधीश स्वगृहे संस्थितोऽभवद जगामस्कन्द आरुह्य मयूरं हर्षसंयुतः पृथ्वीप्रदक्षिणायां स रथस्कन्दः वेगवान् चकार मयया त्र गणेश कौतुकमक संपूज्य पार्वदीम शंकरम चकार प्रदक्षिणा उवाच शंकर विवाहो मे विधीयता प्रदक्षिणा नितुर्मा दुसदाशिव पृथ्वी प्रदक्षिणातेन कृता शास्त्रेण संशयः श्रुत्वा गणपदेर्वाक्यं कम्पि दशङ्करो ब्रवीद करोमि दे विवासं वै मा कुरु पुत्रक तदयेकान्तकं शम्भुं पर्वती प्रेमविह्वला उवाच कार्तिकेयं किं दुण्डिस्स मानिधः तदस्तां शङ्करो वाक्यं जगाद शृणु पार्वति अयं क्रुद्धश्च सर्वस्वं हरत्यत्रन न संशयः अधस्नेहं परित्यज्य रक्ष धर्मं नायं पुत्रो ो महा्रहभूत सगद्वा सदी शंभु गणेशस्य गणेशन हृदय विदूयता सिद्धे विवाह के पूर्णे का सगद तत्र विघ्नकरो विघ्नं चकारपरमाद्भुतं नारदसहसागत्य कार्तिकेयमुवाचः विवाहकृत्यमेदस्य पित्रा मात्रा कृतं पुरा त्वां वञ्चयित्वा सेनानीकृतं कर्मजुगुप्सितं नावलोक्यं मुखं माधुः पितुश्चापि त्वया कदा यवमुक्त्वा गदो विप्रो नारदः कलहप्रियः स्कन्दो निःश्वस्य तस्मात् ययौ श्रीशैलपर्वतं ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वती शङ्कराविमं शोधार्थं तत्र शैलेतौ गदौ ज्ञात्वा पपालसखात् क्रौञ्जे स्कन्दं स्थितं ज्ञात्वा पार्वती शङ्करौ नृप शोकसंविघ्नचित्तौ तौ विलापं चक्रदुःपुरा तत्रा जगाम जगामविप्रेन्द्रो मुद्गलः सर्वमुद्गलः तं दृष्ट्वा सहसोद्धाय पूजयामास दुर्मुनिम् सुखासीनं महाभाग उवाच शोकसङ्कुलः भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनं स्कन्दः संयोगदं पूर्णमुपायं तं करोम्यहं रुरोदपार्वती तत्र ततस्थौ मुनिरब्रवीद मुद्गल उवाच शम्भो शृणु महाभागत्वं साक्षात् सर्ववित्प्रभुः विद्यारूपेयमाद्या सा शक्तिसर्वार्थदायिनी तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ द्विविद्धौ तौ त्वया त्वत्समो नैव दृश्यते योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव पुत्रसमाधिजः प्रोक्तस्ततश्चिन्तामणिस्मृतः देहश्च कृमयस्तत्रात्मा त्वं पुरुष उच्यते ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः अर्धनादीश्वरस्त्वं च तस्माज्जादो गजाननः ब्रह्मभूतपदस्यासौ पालको नात्रसंशयः भिन्नाशकृयं जादा भिन्नस्त्वं देहधारकः भिन्नभावात् समुत्पन्नपुत्रस्ते स्कन्द एव देहसौख्यकरः प्रोक्तस्कन्दः सर्वत्र सम्मतः शान्तिसौख्यकरश्चैव गणेशपुत्रभावतः तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः स्कन्दं स्नेहेन शम्भो त्वमधिकं तदा न तथा ब्रह्मणि श्रद्धाधिका विश्वेश्वरेऽधुना तेन विघ्नसहायुक्तो जातोऽसि च भजत्स्वतं ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः तदा विषय तापास्ते स्वयं वश्या भवन्ति विघ्नेश्वरमनादृत्यस्कन्दं विवाकसंयुधम् आदौ पश्यामि क्षत्रिया वै सन्धृतं सर्वं कृदं विघ्नकरेण ते वियोगश्च समुत्पन्नस्तस्मात् तं शरणं व्रजा एवमुक्त्वा मुद्गलस्त तं जगामस्वेच्छयाचरन् शिवस्य क्रियायुतः सस्म मन्यदे सत्यमेव तद् त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा तत्रादौ सङ्कटीप्राप्ताश्विनीतां तौ प्रचक्रदुः मायां भ्रान्तिकरीं भिन्नभावप्रमोहतः त्यक्त्वा शिवश्च शक्तिश्च शान्धिस्तौ तौ बभूवधूः कस्य पुत्रश्च कामादापिता को भ्रमदायकं कृदम् विघ्नेश्वरेणैव तमावां शरणम् गदौ तदो विघ्नेश्वरेणैव कृदं कौतुकमादराद बुद्धिभेदकृतस्तत्र स्कन्दस्य नृप तच्छृणु त्यक्त्वा मयादिमूढेन पार्वती शङ्करावहो ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुं सक्रियाशिवेन विघ्नेशस्तपसाराधितोऽभवत सोऽयं पुत्रस्वरूपेण बभूव वरदानदः स्वानन्दवासकारी ससिद्धिबुद्धिपदि स्वयं योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवद एवं विचार्यस्कन्धसयौ कैलासमादराद आदौ प्रणम्य विघ्नेशं पूजयामास भक्त्रिदः अधर्वशिरसां स तदस्तुत्वा सदाशिवम् उमां सम्पूज्य तुष्टावप्रणनामाध दण्डवद सम्मानिद सदैस्कन्दो तिष्ठत्तद्भक्तिसंयुतः तदाज्ञावश्यगो भूत्वा शान्तियोगपरो भवद विवाहार्थं शिवेनाश्रौ प्रेरितस्तमुवाचः स्त्रियं बन्धकरीं नाथ नेचामि गणपेरतः अत्याग्रहयुधस्कन्धो भजत्तं गणनायकं माया सुखं बभूवः एवं सङ्कटः हरिण्या चतुर्ध्या महिमाद्भुदः कदितत् शान्तिदस्सर्वसम्मेलनकरो भवद अन्यच्छृणुमः भागचरित्रं पापनाशनं वङ्गदेशे द्विज कश्चित् पापकर्मा बभूवः त्यवा ब्राह्मणमागम स मद पानरदोव यवनीं सय यो भून्म महाबल वक्त न शम पापमय महद कधनेरदोषाण दोषी भविमान कदाचिज्वर संयुक्तो बभूवे जादिदूषणः तत्राश्विन भवाप्राप्ता प्राप्ता नृपकृष्णा चतुर्थीका तत्र तेन जलान्नं च भक्षितं न भयान्नृप सुपक्वानां तण्डुलानां पीतं चन्द्रोदये जलं तदो बहौ काले मामार ममारयवनोद्विजः सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप एतादृशा महापापाव्रतपुण्यप्रभावतः ब्रह्मभूता बभूवुश्च का तधा विधिकारिणाम् एवं नानाजनाराजन् भुक्त्वा भोगान् यथेप्सितान् ब्रह्मण्यं ते गदास्तत्तु मया वक्तुं न शक्यते इदमाश्विनजायास्तु माहात्म्यं सर्वार्थं लभते नरः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थी माहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ओम्